श्री श्रीगुरुभ्यो नमः हरिः ओणानान् त्वा गणपतिम् गणपतिगुम् हवामहे गणपतिमिति गणपतिम् हवामहे कविं कविं कविनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवः पमम् ज्येष्ठराजम् ब्रह्मणाम् ज्येष्ठराजमिति ज्येष्ठ राजम् ब्रह्मणाम् ब्रह्मणः ब्रम्हना ब्रह्मणस्पदे पत आनः न शृण्वन् शृण्वन्नोतिभिः कोतिभिः सीद कोतिभिरित्योतिभिः सीदसादनम् सादनमिति सादनम् ॐ श्रीमहागणपतये नमः श्रीगुरुभ्यो नमः हरे